सन्पाशिम् चामियजुषा प्रजावाजुर्धनम् च ॐ शान्तिः शान्तिःशान्तिः ॐ शन्नो मित्रश्रंवरुणः शन्नो भवत्पर्यपा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नभो ब्रह्मणे नमस्तेवायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि वदिष्यामि सत्यम् वदिष्यामि तन्मा भवतु अवतु माम् अवतु भक्तारम् ॐ शान्तिः शान्तिः शान्तिः ओम् शन्नो मित्रशंवरुणः शन्नो भवद्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्तेवायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मा बादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मावीत् तद्भक्तारमावीत् वे एद्वक्तारम् ॐ शान्दिः शान्दिशान्तिः ॐ तच्छञ्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्त्यर्मानुषेभ्यः ऊर्ध्वञ्जिगातु भेषजम् शन्नो अस्तु द्विपदे एष्पदे ॐ शान्तिःशान्तिः शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तु माविद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः ॐ शान्ति पूर्णमदः पूर्णविदम्पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णबादाजपूर्णमेवावशिष्यते ओम् शान्तिश्शान्तिश्शान्तिः